श्रीमद्भागवत्महापुराणं दसंस्कन्ध अथ षोडशोऽध्यायः कालीपरकृपां शेषोकुवाच विलोक्यदूषितां कृष्णां कृष्णकृष्णाशिना विभू तस्याविशुद्धिमन्विच्छन् सर्पं तमुदवासयत् राजवाच कथमन्तर्जले गाधे न्यगृह्णाद्भगवान् हिम् स वैभियुगावासं यथा सेद्विप्रकद्यतां ब्रह्मन् भगवतस्तस्य भुम्नः स्वच्छन्दवर्तिनः गोपालोदारचरितं कस्तृप्येतामृतं जुषन् शेषोकुवाच कालिन्द्यां कालीयस्यासीद्ध कश्चिद्विषाग्नाम् सप्यमाणपया यस्मिन् पतन्त्योपरिगाखगाः विप्रस्मता दोर्म्यमारुते नाभिमर्शिताः म्रियन्ते तिर्गायस्य प्राणिनस्तिरजङ्गमाः तं चण्डवेगं विसुविर्यममवेक्षितेन दुष्टां नदीं च खलसंयमनावतार कृष्णकदम्बमधिरूह्य ततो चतुङ्गम् आस्फोटगाढरशुनो न्यपतन् विशोदे तर्पहृदपुरसारनिपातवेगसञ्चोभितोरविशोत्थव सिताम्बुराशी पर्यप्लुतो विषकषाय विभीषणं च गोर्वी धावन्धनु सतमनन्तबलस्य किं तन् तस्यार्हते विहरतो भुजदण्डघुर्ण वार्घोषमङ्गवरवारणविक्रमस्य आश्रित्य तत् स्वसदनाभिभवं निरीक्ष चक्षुश्रवासमुसरन् तदमृष्यमाण तं प्रेक्षणीयसुकुमारं घनावतान्दातं सेवस्य पीतवसनं क्रीडन्तम् अप्रतिभयं कमलोदराङ्क्षिं सन्दस्य मनमसुरुषा भुजया च छाद तं नागभोगपरिवीतमदृष्टिचेष्टम् आलोक्य तत्प्रियसखा गावो वृषावस्य तर्य क्रन्दमानाः सुदुःखिताः कृष्णेनस्ते क्षणाभीता रुदद्य इतस्थिरे अथ व्रजे महोत्पाता त्रिविधां ध्यति दारुणाः उत्पेतुर्भुवि दिव्यात्मन्यासन्न भयशंशिनः तानालक्ष्य भयोद्विग्ना विना रामेण गा कृष्णं ज्ञात्वा चारितुं गतं तैर्दुर्निवृत्तैर्निधनं मत्वा प्राप्तमतद्विदः तत्प्राणा तन्मनस्कास्ते दुःखशोकभयातुराः अबालवृद्धवनिता सर्वेङ्गा पशुवृत्तय निर्जग्मुरुगोकुलाद्दीना कृष्णदर्शनलालशाम् तान् तथा विक्ष्य भगवान् माधवो बलह, रहस्य किञ्चिनोऽव्रा च प्रभावज्ञोऽनुजस्य स तेऽन्वेषणं माणादयितं कृष्णं शुचितया पदे भगवल्लक्षणे जग्मोपदभ्यायुनातम् ते तत्र तत्राब्जय माङ्कुशासने धजोपपन्नानि पदानि विस्मते मार्गे गवामन्यपदान्तरान्तरे दीक्षमाणायुरङ्गसत्वरा अन्तर्षदे भुजगभो गपरीतमारान् कृष्णं नरेहमुपलभ्य जलाशयान्ते गोपाश्च मूढतृष्णान् परितपशुंश्च सङ्कन्दत परमुखस्मलमापुरार्ता गोप्योनिरक्तमनसो भगवत्यनन्ते तत्सौ हृदस्मितविलोकगिरस्मरन्त्य ग्रस्ते हि नाप्रियतमे भृषदुःखतप्ता शून्यं प्रियव्यतिहितं दधिसु त्रिलोकम्